श्रीमद्भागवतमहापुराणं चतुर्थस्कन्ध अथ द्वाविंशोऽध्यायः वयति उवाच जडेषु प्रगृळन् स्ववेवं पृथुं पृथुलविक्रमं तत्रोपजग्मुनियश्चत्वार सूर्यवर्चस तांस्तु सिद्धेश्वरान् राजा व्योम्नो लोकान् पापान् कुर्वन्त्याशानुकोच्च लक्षितान् तद्दर्शनोद्गतान् प्राणान् प्रत्यादि सूरिवोत्थितः स सदस्यानुको वैन्य इन्द्रियेषो गुणानिव गौरवाद्यन्त्रितः सभ्य प्रसृया न तु कन्धर यदिवत्पूजयाश्चक्रे तत्पादशौचसलिलैर्मार्जितां लघुवन्दन तत्र शीलवतां नृत्यम् आचरन् मानयन्निव हाटकासान् आसीनां स्वधिष्णे स्वीव पावकान् तद्धा संयं संयुक्त प्रीतप्राहभवाग्रहान् तिरुवाच अहो आचरितं किं मे मङ्गलं मङ्गलायनाः यस्य भो दर्शनं ह्यासी च योगिभिः किं तस्य दुर्लभतरमिह लोके परत्र च यस्य विप्रा प्रसीदन्ति शिवो विष्णुश्च सानुगः नैव लक्षते लोको लोकान् पर्यटोऽपि यान् यथा सर्वदृशं शर्व येष हेतवः अधुनापि धन्या ते धन्याः साधुवो गृहमेधिनः यद्गृहा हर्षवर्याम्बोतृणभूमीश्वरा परवराः व्यालालयद्रुमा वै तेभ्यरिक्ता किल सम्पदः यद्गृहातीर्थपादीय पादतीर्थविवर्जिताः स्वागतं वो दुजश्रेशाद्यद्व्रताने मोक्षवः तरन्ति श्रद्धया धीरा बाला एव बृहन्ति च प्रत्यन्न कुशलं नाथ इन्द्रियार्थार्थवेदीनां व्यसनावापयेतस्मिन् पतितानां स कर्मभिः भवत्सु कुशलप्रश्न आत्मा रामे सुनेष्यते कुशला कुशला यत्र न सन्ति मतिवृत्तयः तदहं कृतविश्रम्भसृहृदो वस्तुपश्विनां सम्पृच्छे भूये स्वस्मिन् क्षेमकेलाञ्जसा भवेत् व्यक्तम् आत्मवतामात्मां भगवानात्मभावनः स्वानामनुग्रहायेयं मां सिद्धरूपी चरद्यजः मैत्रिवाच पृथोऽस्तं सुक्तमाकर्णशारं सुष्ठुमितं मधु मे मान इव प्रीत्याकुमारप्रत्यवाचः तनत्कुमारुवाच साधु पृष्टं महाराज सर्वभूतहितात्मना भवता विदुषा चापि साधूनां मतिर्दृषी सङ्गमः खलु साधूनाम् उभयेषां च सम्मतः यः सम्भाषणसम्प्रश्न सर्वेषां वितनोति सम् अस्त्येव राजन् भवतो महिद्विषपादारविन्दस्य गुणानुवादने रतिर्जुरापाविधनोति नष्ठिकीकां कसायं सासे स्वीया देव सुनिश्चितो गुणां क्षेमस्य सन्ध्यग्नीं वृषेष् हेतुः असङ्ग आत्मव्यतिरिक्त आत्मने दृढालतिर्ब्रह्मणि निर्गुणे च यां सा श्रद्धया भगवद्धर्मचर्यया जिज्ञासयाध्यात्मिकयोगनिष्ठया योगे सर्वोपासनया च नित्यं पुण्यश्रवकथया पुण्यया च अर्थेन्द्रिया रामसघोष्ठे तृष्णयां तत्सम्मतान्नाम परिग्रहेण च विविक्तरुच्या परितोषयात्मन् विराहरेर्गुणं पियूषपानात् अहिंसया पारमहंसचर्यया स्मृत्या मुकुन्दाचरिताग्रसीथूनां यमैरकामैर्नियमैर्चाप्यनिन्दया निरीहया द्वन्द्वतीक्षया च हरेर्मुहूर्तन् परकर्णपूरगुणाभिधानेन विजयं भ्रमाणयां भक्त्याशङ्गनात्मले स्यानिर्गुणे ब्रह्मणि चान्द्रसारथिः यदा रतिर्ब्रह्मणि नैषके पुमान् आचार्यमान् जालविरागहंन्द्रसान्द्रहंसाम् इहत्यं वीर्यं हृदियं जीवकोशं पञ्चात्मकं योनिमिबोत्थितोऽग्निः दिग्धाशयो मुक्तसमस्त तद्गुणो नैवात्मनो बहिरन्तर्विचष्टे परात्मनोर्यद्योधानं पुरस्तात् स्वप्ने यथा पुरस्सन् तद्विनाशे आत्मानमिन्द्रियार्थं च परं यदुभयोरपि सद्याशय उपाधौ वये पुमान् पश्यति नान्यदा निमित्ते सत् सर्वत्र जलादावपि पुरुषः आत्मनस्य परस्यापि भिदां पश्यति नान्यदा इन्द्रियैर्विषया कृष्यैराक्षिप्तं ध्यायतां मनः चेतनां हरते बुद्धे स्तम्बस्तोऽयमिवर्षं हृदात् भ्रस्यन्त्यनुस्मृतिश्चित्तं ज्ञानभ्रंस स्मृतिक्षये तद्रूथं कवयप्राहुरात्मापह्नवमात्मनः नात परितरो लोके पुंस स्वार्थव्यतिक्रमः यदध्यन्यस्य प्रेयस्त्वम् आत्मनस्तव्यतिक्रमात्